ब्राह्मणा वाटधानाश्च गोमन्तः शतसङ्घषः त्रिखर्वम् बलिमादाय द्वारितिष्ठन्ति वारिताः कमण्डलूनुपादाय जातरूपमयाञ्छुभान् ये तद्धनम् समादाय प्रवेशम् यथैव मधुशक्राय धारयन्त्यमरस्त्रियः तदस्मै कांस्यमाहार्षीद् वारुणम् कलशोदधिः शैक्यम् रुक्मसहस्रस्य बहुरत्नविभूषितम् शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान् दृष्ट्वा च मम तत्सर्वम् ज्वररूपमिवाभवत् गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ तथैव पश्चिमम् यान्ति गृहीत्वा भरतर्षभ उत्तरम् तु न गच्छन्ति विना तातपतत्रिणः तत्र गत्वार्जुनो दण्डमाजहारामितम् धनम् इदम् तन्मे निगदत शृणु पूर्णे शतसहस्रे विप्राणां विप्राणाम् स्थापिता तत्र सञ्ज्ञाभूच्छङ्खो घ्मायति नित्यशः मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत अनिशम् शब्दमश्रौषम् ततो रोमाणि मे